मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं नैन्टीन् क्षेत्रवासिचरितवर्णनं श्रीगणेशाय नमः अधुना अधुनावदमाहात्म्यम् देवागारस्य मानद के के मुख्या जनैपूज्या संस्थिता गणपे रताः भृश्युण्ड्युवाच द्वारकासहितो विष्णुर्देवागारे समाश्रितः पूर्वभागे गणेशः तु दिशि देवेन्द्रसप्तमाः यावैष्णवान्येव क्षेत्राणि विविधानि च माधुराद्यानि सर्वाणि पूर्वभागे स्थितानि वै तत्र मध्ये महेशानाद्वारका शतमञ्जसा धनुषां दुःप्रमाणेन गर्भाकारात् प्रकीर्तिता तत्र कृष्णश्च रामश्च प्रद्युम्नो ह्यनिरुद्धकः समातस्तुर्गणेशस्य भक्त्यर्थं भक्त्रसत्तमः गणेशानां पुष्टिपदिं स्थापयित्वा जनार्दनः सेवते दमहाभागाद्वारकावासिनस्तथा गोमदीकुण्डरूपेण स्वयम् तत्रैव संस्थिता स्नानमात्रेण जन्तूनां ब्रह्महत्यां विनश्यदि कृष्णपक्षे नरोनारी श्रावणे दु जनार्दनं मयूरे पूजये क्षेत्रे वासकृ सर्वदायकं तेषां पूजनमात्रेण सद्य पापविवर्जितः मनेप्सितं लभ्यते वा शत यज्ञफलं तथा मधुरा वामभागे दुद्वारका याः समास्थिताः तावन्मानेन देवे सर्वार्थस्य प्रदायिनी बालरूपधरौ तत्र रामकृष्णौ समास्थितौ पूजनीयौ नरेणैव सर्वकामफलप्रदौ गौरीविनायकं तत्र स्थापयित्वा स्वहर्षतः जनैः सह महाभक्तौ सेवेदे तं जनार्दनौ तत्रैव यमुना साक्षात् संस्थिता कृतरूपिणी तस्यां स्नानेन देवे सर्व पापक्षयो भवेद कृष्णाष्टम्यां विशेषेण तयोत्रा प्रकीर्तिता मासे मासे जनानां सा दह दीह्यशुभं महद अयोध्या दक्षिणाङ्गे स्यास्तावन्मानेन द्वारकायाश्च तत्रैव शरयूकुण्टकं तत्र स्नानेन जन्तूनां पापं नश्यति तत्क्षणाद् ईषजन्मकृतं सर्वं स्वर्गतं कुण्डमञ्जसा तत्र रामो लक्ष्मणश्च भरतः शत्रुसूदनः स्थिता संस्थाप्य हेरम्भं सेवायां तत्परा जनैः चैत्र चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते क्षेत्रवासिन पुरोभागे दुरितापहां द्वारकायपुरोभागे व्याससत्यवधी सुधः संस्थितसर्वधर्मज्ञो दश धनुप्रमाणदः तत्पुरो मृहरिश्चैव वामनस्तत्पुरोऽभवत् मत्स्यस्तत्पुरतो विष्णुस्तदो बुद्धप्रकीर्तितः नरनारायणौ देवौ तत्पुरः संस्थितौ किल हयग्रीवस्ततः प्रोक्तः समानमानदस्थितः तथा धनुषां दशके परे तिष्ठन्ति विष्णुरूपाश्च मधुराया महेशाना मधुराया सुखप्रदृणुध्व महेशान कथया सोर्म परशुरामश कलृ्णीसुतस्था कपिलेश शेष सनकाद्या भजन्ति स्वस्वनामाङ्गानास्थाप्य गणनायकान् अयोध्याया पुरःसप्त संस्थिताश्च जनार्दनाः तावन्मानेन देवेशास्तान् शृणुध्वं समासतः नारदपार्थवीर्याश्चात्रितो यज्ञस्तथा परः वृषभश्च पृधुर्वैन्यो मोहिनी स्मृदा बुधैः स्वस्वेष्टनामकांस्तत्र स्थाप्य विघ्नेश्वरान् परान् भजन्ते भावयुक्ताश्च सदा क्षेत्रनिवासनः द्वादश्यां प्रतिमासेषु पूजनीया क्रमेण तु चतुर्विंशतिदेवेश विष्णवः क्षेत्रवासिभिः द्वारकास्थसमायुक्तास्तत्र विष्णु अंशसम्भवाः अवान्तरे स्थिताः सर्वे मयूरे हितकारकाः स्वयं विष्णुस्ततस्तत्र तिष्ठदिक्षेत्रगोमराः विकुण्ठं तत्समाख्यातम् धनुषां द्विशतात्मकम् एकादश्यां जनाः साक्षात् पूजयन्ति निरन्तरं तेन सौभाग्यसंयुक्ता भविष्यन्ति मयूरके अन्ये नानावताराश्च क्षेत्राणि विविधानि तु संस्थितानि मयूरेस्मिन् गणेशे भक्तिकारणाद विकुण्ठवासी भगवान् सदा सिद्धिविनायकं स्थाप्य पूज्यं विधानेन भजते नन्यभावदः अन्ये ये स्वस्वनाम्ना ते गणेशान् स्वेष्टरूपकान् विष्णवस्थापयित्वा तं भजन्ते नन्यभावदः गर्भागारस्य देवेश पूर्वाङ्गम् वर्णितं मया सङ्क्षेपेणाधुना तद्वद्दक्षिणाङ्गम् तु वर्णये गर्भागारात् स्वयम् काशी संस्थिता मध्यभागदः धनुषाम् द्वे सदेतस्य मानम् क्षेत्रे प्रकीर्तितं तत्र विश्वेशो देवो भक्तिपरायणः टुण्डिराजं समास्ताप्य भजतेऽनन्यचेतसा मणिकर्णीहृदस्तत्र वरुतदे पापहारकः स्नानेन मानवस्यैव ब्रह्मघ्नः पातकं व्रचेद भागीरधीसरस्तत्र वरुतदे देवनायकाः सद्यस्नानेन पापानिलयं गच्छन्ति निश्चितं प्रदोषे पूजनं तस्य कुर्वन्ति क्षेत्रवासिनः माककृष्णचतुर्दश्यां यात्रां कुर्वन्ति मानवाः वार्षिकीं विश्वनाथस्य यात्रां क्षेत्रनिवासिनः जना कुर्वन्ति ते सर्वे भवन्ति सुखभोगिनः तस्या वामाङ्गके देवस्तावन्मानेन संस्थिता अवन्दी सर्वदा पुण्या महाकालश्च शङ्करः क्षिप्रानदी भवं कुण्ठं वर्ददे तत्र पापहृद महाकालस्य कुण्ठं तु पापनाशनं सोमवारे प्रदोषे तमर्चयन्ति विशेषदः ते सर्वे धनधान्यैश्च संयुक्ता निवसन्ति हि काश्या दक्षिभागे तावन्मानेन संयुधा मायापुरी महेशानदक्षयज्ञश्चितीश्वरः प्रदोषे जत्रयोदश्यां शनियुक्ते महेश्वरम् पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयाद तत्र द्वारं च गङ्गायाः संस्थितं कुण्डरूपकं नरस्नानेन सद्यश्च फलं प्राप्नोदि वाञ्छितं काश्याश्च पुरदो देवा महान् धनुषां शतकेनैव मानेन तस्य क्षेत्रकम् नदी नदीस्वरूपेण गोदावरी तत्र महानदी संस्थिता स्नानमात्रेण गोघ्नाद्यखम् विनश्यति कपिलम् गणनाथं सत्र्यम्बकः स्ताव्यनित्यदा पुपूजभक्तिसंयुक्तो गाणपत्यप्रभावविद क्षेत्रगोवैद्यनाथस्तु तावन्मानेन तत्पुरः स्थितसर्वार्थदो देवो भक्तानां भवनाशकृदभवरोगविनाशार्धं वैद्य एकशिव स्मृतः ददाधिगणनादाख्यमौषधं योगमिच्छताम् उत्कटेशस्तत्पुरश्च तावन्माने संस्थितः उत्कण्ठाम्भक्रिमिच्छन् सन् गणेशस्य महात्मनः त्र्यम्बकस्य तथा वामे रामेश तावन्मानेन तत्क्षेत्रे समुद्रकुण्डरूपदः तत्पुरः सोमनाथस्तु तत्पुरो स्वस्वतीर्थसमन्वितौ दक्षिणाङ्गेत्र्यम्भगस्य घुसृणेशस्थितः प्रभुः तथोङ्कारेश्वरो देवोऽप्यमलेश्वरसंयुधः सरस्वरूपेण तत्र नर्मदा संस्थिता नदी दर्शनेनेक यत्पापं जन्तूनां नाशयेत् सदा स्नानमात्रेण देवेशा दशजन्मकृतं महद पापं नश्यति जन्तोश्च निश्चितं मुनिभिः पुरा तथ तावन्मानेन संयुक्ता शिवा ये ते प्रकीर्तिताः स्वस्वनामाङ्गितान् सर्वे सदा स्थाप्य गणेश्वरान् सेवन्दे भक्तिसंयुक्ता प्रकीर्तिताः कृष्णपक्षे च दुर्दश्यां मासे मासे महेश्वराः सेवनीया प्रयत्नेन क्षत्रवासिभिराधराध ततः पुरो महाक्षेत्रे कैलासे वासकारकः शिवसाक्षास्थितस्तत्र धनुषाञ्च चतुश्चे क्षेत्रं कैलासनाथस्य तत्र भागीरथीनदी स्वयं स्थिताविशेषेण स्नानमात्रेण सर्वदा महागणपतिं स्थाप्य पूजति नित्यमादराद भजदेदं शिवः साक्षाद्गणपत्याग्रणीर्महान् अन्यशङ्करक्षेत्राणि शिवानानाविधा मदाः संस्थितानि स्थिताः सर्वे क्षेत्रसंन्यासभक्तिदः तेषां स्थानादिकथयितुं देवा प्रशक्यदे स्वस्वनामयुधान् पूजन्त्यास्थाप्य गणनायकान् दक्षिणे कदितं शैवं परं देवालयं मया सङ्क्षेपेण महाभागा अधुना वदे सदेशु गर्भागारा च धनुषां पञ्च सुस्थिता महालक्ष्मी स्वयं साक्षाद्भक्तेभ्यः कामदायिनी लक्ष्मीकुण्डभवं तीर्थं संस्थितं तत्र पापहृद स्नानमात्रेण सद्यो दरिद्रता नाशकारकं तस्या वामाङ्गके शक्तिर्महाकाली समास्थिदा कालीसरश्च तत्रैव संस्थितं पावनाशनं महासरस्वतीशक्तिर्दक्षिणाङ्गे स्थिदा तथा सारस्वतं महत्कुण्डं तत्र जाड्यविनाशनम् स्वानन्दवासमास्ताभ्य भजते गणनायकं महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः सिद्धिशं तु महाकाल्यास्ताभ्यभक्तिपरायणा भजते नित्यमानन्दाद्भुतायां पूज्यते तथा बुद्धिशं तु तृतीयायां महासरस्वतीनरैः सक्रियुक्तास्ताप्य नित्यं भजदे पूज्यते परा महालक्ष्म्या पुरश्चैव विष्णुकाञ्जीस्थिता पुरी लक्ष्म्या विष्णुस्थितस्तत्र भजते स्थाप्य विघ्नपम् अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादराद पापनाशकरस्तेषां भवदे सर्वदायकः तत्पुरो च धनुष्यां द्विशतात्मकम् क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतं तत्पुरस्तावदामानेन युगं क्षेत्रमुत्तमं कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुधा क्षेत्रं समाख्यादं वाराह्या सर्वदं परं तत्र शक्तिस्थिता साक्षाद्वाराही तद ऐन्द्रियामहाक्षेत्रं पूर्वमाणेन कीर्तितम् ऐन्द्रिगणेश्वरं तत्र भजतेऽनन्यचेदसा महाकाल्यापुरश्चैव पूर्वमानेन संस्थिता नारसिंहीमहाशक्तिर्दैत्येभ्यो भयदायिनी तदशाकम्भरीशक्तिश्च ततो रक्तदन्दिका ततो भीमा महेशान संस्थिता तीर्थसंयुधा अधो महासरस्वत्यास्तावन्मानेन संस्थिता पुरस्तु वैष्णवीदेवी ततो ब्राह्मी स्थिता मदा चामुण्डा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मदा समानमानभावेन संस्थिता शक्तयः पराः ण्डरूपेण तीर्थानि स्वस्वक्षेत्रगदानि तु कृत्वा ताशक्तयः सर्वा मयूरे संस्थिताः सदा स्वस्वनामाङ्कितानास्ताप्य गणेशांश्च देवपाः भजन्तेनन्यभावेन गाणपत्यस्वभावतः अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः न रैस्तासां नवम्यां तु यात्राकार्या सुखप्रदा तासां नामाधिगं देवा मया वक्तुं न मुख्यास्तु नवकोट्यो वै ज्ञातव्यं विबुधैः सदा धनुः पञ्चशतं तस्माच्छक्तिर्लम्बोदरं परम् आस्थाप्य भजते तस्या यात्राष्टम्यां प्रकीर्तिदा अधोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् समासेन महेशानाशृणुदपरमार्धदान् गर्भागारात्समारभ्य चतुश्शतं पितामहः धनुषां क्षेत्रगस्सोऽपि तिष्ठति वेदसंयुधः तावन्मानेन वामाङ्गे तस्याग्निः संस्थितो महान् सहितस्तत्र शेवते गणनायकं दक्षिणाङ्गेष् स्वयं कर्म सह तिष्ठति कर्मभिः सूर्यकलां च संभूदास्त्रयो मुख्या इति स्मृताः ब्रह्माणं च समाश्रित्य सरस्सारस्वतं स्थितं सरस्वती नदीरूपा तत्र तिष्ठति नित्यदा तत्र स्नानेन पापानि प्रणश्यन्ति महान्ति चेद जाड्यभावो नश्यति च नराणां देवसप्तमाः सिद्धिबुद्धिपदिं स्थाप्य सेवते चतुरानः सदा गणेशपूजायां तत्परो भक्तिसंयुधः तदाग्निश्च महात्मानं विनायकं निरन्तरम् आस् ताप्यभक्तिसंयुक्तो खजदे नित्यमादराद आग्नेयं तत्र कुण्ठं तु सर्वाकशमनं स्थितं स्नानमात्रेण जन्तूनाम् अग्निलोकप्रदं भवेद् समीपं कर्मण स्थितं स्नानेन कर्म विनश्यति ब्रह्मण पुरदो देवाधनुषां द्वि शदात्मकं क्षेत्रं वेदाङ्गनाम्नश्च परं सूर्यस्य संस्थितं भानुक्षेत्रं तत्पुरस्तावदा मानेन संयुधम् इन्द्रनाम्नस्तदत्पुरस्तु क्षेत्रं सर्वप्रदायकम् अग्नेः पुरस्तदा क्षेत्रं रवेस्तावत्प्रमाणकं ततः क्षेत्रं गभस्थेश्च यमस्य च ततः परं कर्मणश्च पुरोभागे तावन्मानयुगं महद तदो दैवाकरं मदं तदः तु मित्रस्य तदो विष्णोः प्रकीर्तितम् वरुणस्य क्षेत्रमिन्द्रात्पुरः सर्वाखनाशनं यमात्पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितं समानमानभावेन स्थिताद्वादश भानवः स्वस्वतीर्थैः समायुक्ता कुण्डरूपैर्महेश्वराः स्वस्वनाम्ना स्थाप्य सेवन्दे गणेशान्निरन्तरं तत्पूजः शिव काञ्जीदु सोमयुक्तो प्रदोषे स जनैः पूज्य सुखप्रदः भजते सर्वभावे नास्थाप्य हेरम्भमादराद तीर्थं सर्वपाप निहन्ता च द्रव्यलाभप्रदो भवेद् सप्तम्याम् सर्वदा देवा पूजनीयः पितामहः जाड्यभावहरसोऽपि भवत्यत्र न संशयः भानुःसप्तमिकायाम् तु कर्म सम्पूजयन्ति सर्वदोषविहीनाश्च कर्मणाम् सम्भवन्ति सङ्क्रमेषु सदा पूज्यभानुन् द्वादशसंस्थितान् सर्वरोगादिनिर्मुक्ता भवन्ति क्षेत्रवासिनः तेषां पुरस्वयं नित्यं तिष्ठति सौरलोकगः चतुश्शतं तु धनुषां क्षेत्रं तस्य महात्मनः रविवारे देवेशः पूजनीयो निरन्तरम् नरसर्वार्थसंसिद्धिं लभदे मुक्तिमुत्तमां वरदं गणनाथं संस्थाप्य पूजापरायणः भजदे आदिदेवस्तं सूर्यकालभृदां वरः तत्पुरश्चन्द्रमादेवासंस्थितशतमानदः धनुषां क्षेत्रमेदत्तु तस्य सर्वान्नदायकम् ततः पुरो बुधप्रोक्तस्तावदा मानकेन च तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः चन्द्रवामाङ्गसंस्थश्च भौमो देवपरायणः तत्पुरो भार्गवश्रेष्ठस्तत्पुरस्तु शनैश्चरः चंद्रस्य से दक्षिणे भागे राहुसर्वाजिमर्दन तत्पुक्के दुरव नक्षत्राणी ततःपुर आस्ताप्य स्वस्वना भक्ति तत्पर भाई ग्रह भजन क्षेत्रवास क्षेत्रवासपरायण स्वस्वाङ्गितेषु भारेषु पूजनीया इमे नरैः पूर्णिमायां तमश्चैवामावास्यायाञ्च केदुकः अन्ये सूर्यावताराश्च स्व स्वक्षेत्राय स्थिता किल तेषां नामाधिकथयितुं देवा शक्यते न वै देवालयादष्टदिक्षु भैरवा अष्टमुख्यपाः नानाभैरवसंयुक्ता संस्थिता देवतत्पराः तद इन्द्रो हव्यवाहपूर्वभागे समाश्रितौ यमपो निरुद्दिष्टद्वद्दक्षिणाङ्गे च तिष्ठतः पश्चिमे वरुणो वायुस्तिष्ठतः क्षेत्रसेवकौ धनपो निरुदिस्तद्वदुत्तराङ्गे समास्थितौ अष्टम्यां भैरवापूज्या जनैपैशाच नायकाः भूदादीनां विशेषेण भवन्ति भयनाशकाः दशम्यां दशदिक्पाला पूजनीयाः प्रयत्नदः चौरादिजं भयं सर्वं नाशयिष्यन्ति सर्वदा स्वस्वनामाङ्गिदानास्थाप्य दिगीशा गणेश्वरान् पूजयन्ति भजन्ते दं भैरवाश्च महेश्वराः पूजनीयौ द्वितीयायामश्विनौ पूर्वदिक्स्थितौ द्वारस्य सन्निधानेदु धनुषां शतमानदः देवागारे गणेशं संस्थाप्य नित्यं महाप्रभुं भजतस्तेन सर्वेषां रूपलावण्यदौ मतौ दक्षिणे संस्थितौ तद्वत् गौरी स्कन्दौ परेश्वरम् आस्थाप्य पूज्यविघ्नेशं भजदो नित्यमादराद तयोः पूजनमात्रेण भवेत् सौभाग्यसंयुधः स्वाचारनिष्ठभावेन चित्तं सुनियतं भवेद षष्ट्यां स्कन्दं भजे नित्यं तृतीयायां च पार्वतीं मयूरे देवास्ताभ्यां सौख्यं लभेन्नरः सर्वे वा सुखिमुख्याः पश्चिमे नागामहाबलाः संस्थिताद्वारसमीप्ये नाकुण्ठं तथामलम् पंचमियांजनीयास्ते दारिद्र्यनाशकार कुर्वदे मानव सदा उतरे धननादमु पूजिए धननायकद्या विशेषण्द्वार सामीप्यसंस्थितं त्रयोदश्यां धर्मराजं पूजयेन्नात्र संशयः धर्मप्रदं जनानां च सदा पुण्यविवर्धनम् अन्ये देवगणः सर्वे स्थिता देवालये किल पूर्णिमायां जनाय पूज्याः क्षेत्रवासिभिरादराध यमस्य सन्निधानेदु पितरः क्षेत्रवासिनः संस्थितास्ते नारयिपूज्या अमायां वंशवर्धनाः त्रयस्त्रिंशत्कोटिमिदा देवा सर्वत्र संस्थिताः तेषां स्थानादिदेवा कथयितुं नैव शक्यते दे। देवागारस्य देवेश कथितं यात्रयायुधं माहात्म्यं देवजातीनां सर्वकामफलप्रदं मयूरस्यापि अधुना कथयामि चरित्रकं तत्स्थानां शृणुदप्राज्ञा सर्वसिद्धिप्रदायकम् देवागारच्छदे द्वे दुधनुषां संस्थितो भृगुः भृगुतीर्थमखक्षेत्रे कुण्डं पापप्रदाहकं तत्र स्नानेन जन्तूनां वन्द्य दोषो विनश्यति तथा पूज्य प्रजानाथम् भृगुं सर्वममाप्नुयाद रोहिण्यां तस्य यात्रा वै कर्तव्या तेन दुष्टो महायोगी भृगुः सर्वार्थदो भवेद स्वनामसंयुधं सोप्यास्थाप्य विघ्नेश्वरं परं पूजत्यनन्यभावेन गणपत्यस्वभावदः तस्य वामाङ्गहत् साक्षात् तावन्मानेन संस्थितः पुलहस्त प्रपूज्य कर्मयुक्त भवे नर कुंडम तीर्थाख्यम दोष संधस्दंबरम भजत्यास्ताप्य गणेश गणेश नान्यभावदः यात्रा मृगशिश तोक्त मयूर के कर्तव्या क्षेत्रवासी दक्षिणाङ्गे क्रदुश्चैव कुण्ठं कृत्वा स्वतीर्थजं गणेश्वरं स्थाप्य योगी भज देन्नन्यचेतसा आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नदः यज्ञस्य फलदादा च भवेद् ध्यात्रा विधानदः भृगपुरश्च धनुषां शतं तत्र स्थितो श्यवनश्च तधा विधादा देवसत्तमौ क्रमेण भार्गव सर्वे मुनयस्तत्र संस्थिताः शदानि पञ्च तत्क्षेत्रं धनुषां शौनकादयः पूजनीयश्च पञ्चम्यामृषयत्सर्वभावनाः श्रवणे मानवैस्तैः पुण्यदासम्भवन्ति कुलहस्य पुरस्तद्वत्पौलः मुनय सदा तिष्ठन्ति पूजनीयास्ते रेवत्यां सर्वदा मदाः क्रतोरग्रे महेशाना क्रतुवंशसमुद्भवाः तिष्ठन्ति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः अश्विन्यां पूजनीयाश्च मदाः सर्वार्थदायकाः गणेशमस्ताप्यभिप्रा सेवन्दे भक्तितत्पराः तत्पुरो देवगन्धर्वा विश्वावसु पुरोगमः धनुषां द्वे सदे तेषां क्षेत्रं ख्यादं मयूरके उर्वशी धनुषां शतकं क्षेत्रं तासां तत्र पूजनीय नरपुष्पैर्गंधर्वा पुण्यवर्धना पुनर्वसा वत्सरस पूजनी विशेषद ना मुनिगण अवंदे संस्थित परा विश्वाम याज्ञवल्य पाराशरोग्रणी स्वेदक दुर्वाम देव परो निदाक इत्याद्या बहवो देवा कथयितुं न शक्यते स्वस्वनामाङ्गितांस्ते संस्थाप्य लम्बोदरान् सदा भजन्ते तीर्थ संयुक्ता सुखप्रदाः पूर्वभागाश्रितं सर्वं कथितम्बत्समासदः अधुना दक्षिणं वक्ष्ये सर्वदायकं देवालया दक्षिणा चतुश्शतं च प्रकीर्तितं धनुष्यां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः स्वनामाङ्गितमस्ताप्य गणेशं भजते सदा तत्र तु वासिष्ठं स्नानेन पावनाशनम् भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेद् यात्रा तस्य समाख्यादा मयूरे सुखदायिका तस्य वामाङ्गभागे चात्रिसर्वार्थप्रदायकः गणेश्वरं स संस्थाप्य भजते स्वाभिधानकं तीर्थं तत्र तस्य स्नानमात्रेण कृत्तिकायां विशेषेण पूजनीयो नरै सदा दक्षिणाङ्गे वसिष्ठस्य पुलस्थ्यसंस्थितोऽभवद स्वनामाङ्कितमस्थाप्य डुण्डिं भजति देवपाः कुण्डं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम् आसुरभावसम्भूतं मलं पूजनीयो धनिष्ठायां विशेषेण महामुनिः सर्वार्थदायको भावी यात्रा पारिण एव च पुरोभागे वासिष्ठा मुनयोः परे द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता अत्रे पुरस्तधात्रे यास्तावन्मानेन पुलस्त्याग्रे जपौलस्या भवन्ति मुनय स्थिताः स्वस्वतीर्थसमासक्तास्थाप्य विघ्नेश्वरं तथा पूजयन्ति स्वनामस्थान् भक्तियुक्ता महर्षयः मखायां चैव वासिष्ठा चित्रायामत्रिसम्भवाः हस्ते पौलस्त्यका पूज्याः अन्ये मुनिगणाना सदा तत्रैव संस्थिताः तेषु मुख्यान् प्रवक्ष्यामि शृणुध्वं देवसत्तमाः कण्वश्च जैमिनिश्चै गोद्वितश्च त्रितरैवतौ मेधातिथिर्भरद्वाजो जमदग्निश्च गौतमः इत्यादि बहवोन स्थिता संस्थाप्य गणेश पूजनीया नरेण सर्वर्म विवर्धना तथिषु महेशान्षत्रु विशेषद यात्रा तमख्या सर्वाथ शमनी परा ततः पुरपि सा चेशा भूदेशा सिद्धचारणः संस्थिता पूजनीयास्ते भौमवारे विशेषदः अधः परं वदामि पापकारकं चित्रमयूरे मयूरे माहात्म्यं क्षेत्रवासि भवं परम् देवालयादष्टशतं धनुषां स्थानमुत्तमं दक्षस्य तत्र देवेशा दक्षतीर्थं सरस्थितं तत्र स्नानेन दुर्बुद्धिः परा नश्यति तत्क्षणात् सुबुद्धिर्जायते सद्योजनानां भावितात्मनां महायात्रायभिजिति तस्य प्रोक्ता सुखप्रदा कर्तव्या क्षेत्रवासीभिपरा सद्बुद्धिदायका दक्षस्य वामभागे धुमरीति संस्थितो महान् तावन्मानेन संयुक्त स्वतीर्थेन समन्वितः स्वादौतस्य महायात्रा कर्तव्या वृद्धिदायिनी क्षेत्रवासिभिरानन्दाद्योगीन्द्रस्य महात्मनः अङ्गिरास्तस्य दक्षस्य दक्षिणे योगिसत्तमः पूजनीयो विशेषेण ज्ञानदा भवेत् सदा तीर्थं तत्र समाख्यातं कुण्डरूपेण योगिनः स्नानेन भक्तिसंयुक्तो लभे ज्ञानं च मानवः दक्षादयत्रयप्रोक्ताः संस्थाप्य गणनायकं स्वस्वनामाङ्गितं देवाः पूजयन्ति निरन्तरम् दक्षाग्रे दक्षसम्भूताश्चतुर्वर्णप्रकाशिकाः पुत्र्या षष्ठीर्महाभागास्येवन्दे गणनायकं तासां क्षेत्रं समाख्यातं चतुशतधनुर्मिदम् रविवारे पूजनीया वंशसौभाग्यवर्धनाः तासां पुरप्रजा सर्वा नरैष्ठाभ्यसमुद्भवाः संस्थिता पूजनीयास्ता धनिष्ठायां सुखप्रदाः द्वे सदेधनुषां तासां क्षेत्रं चैव प्रकीर्तितं गणेशमास्ताभ्य सर्वास्य वन्दे नित्यमादराद मरीचेस्तु पुरोभागे मरीचा काश्यपादयः संस्थितास्ते नरैपूज्या शततारे धनप्रदाः चतुश्शतानि तत्क्षेत्रं धनुषां च प्रकीर्तितम् प्य विघ्नेश्वरान् सर्वे पूजयन्ति निरन्तरं पुरोभागे ह्यङ्गिरस्स स्थिता आङ्गिरसा सदा तावन्मानेन संयुक्ता तीर्थयुक्ता महर्षयः लम्बोदरांस्त आस्ताप्य स्वस्वनामाङ्गितां सदा पूजयन्ति विशेषेण भक्तिभावसमन्विताः आश्लेषायां महायात्रा तेषां कार्या नरैः परा पुत्रपौत्रप्रवृद्ध्यर्थं क्षेत्रवासिभिरादराद अन्ये मुनिवरास्तत्र संस्थिता गणभेरदाः तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगीन्द्रकांस्तथा दुर्वासागालवश्चैव त्रिशिरा नैवो मुनिः अगस्त्यश्च मृगण्डस्तु मार्कण्डे यो दधीचिकः कथितेषु दिनेष्वेदे पूजनीया महात्मभिः सर्वसौख्यप्रदातारो भवन्ते योगी सतमाः तीर्थयुक्तां गणेशानास्थाप्य संपूजयन्दिते। मुनयो भक्तिसंयुक्ता क्षेत्रवासपरायणाः अतश्च किन्नरा साध्या पुरो विद्याधरास्तथा सेवन्दे गणनाधं संस्थाप्य सर्वे सर्वकारिण आदराद एवं संक्षेपदप्रोक्तं महात्म्यं पश्चिमाश्रितम् अधोत्तरभवम् देहाक् कथयामि समासदः मयूरक्षेत्रसंस्थानाम् चरित्रम् सुखदम् भवेद देवागरतुदनुषाम् देव पाशदपञ्चगे वसवोष्ठौ स्थितश्चैव स्थाप्य गणेश्वरम् परम् स्वस्वतीर्थभवम् कृत्वा भक्तिपरायणाः हजन्ते पूर्णिमायां ते पूजनीया विशेषतः तेषां वामाङ्गभागे तु येन संस्थिता तावदा मानेन युतास्तीर्थ संयुताः गणेश्वरं ताः संस्थाप्य स्वस्वनामयुदम्बराः पूजयन्ति विधानेन भक्तियुक्ता महौजसः द्वादश्यां ता नरैपूज्या कामधेनुमुखासुराः क्षेत्रवासिभिरानन्ददायिकाः कामपूरिकाः दक्षिणाङ्गे सिधश्चैव देवलश्च समास्थितौ गणेश्वरं तौ संस्थाप्य पूजतो योगिसत्तमः उत्तरायां विशेषेण पूजनीयौ नरैः सदा एकनिष्ठाप्रदौ स्यातां नराणां पापहारकौ वसूनां च पुरोभाग्यक्षेत्रं शतधनुर्द्वयं कार्ग्याणां ते नरैर्विद्याप्रदा पूज्या विशेषतः उत्तराषाढनक्षत्रे यात्रा तेषां प्रकीर्तिता गर्गस्वयं महायोगी भजते गणनायकं गवाम्बुरो महेशाना मौद्गला गणपप्रियाः सेवन्ते विघ्नराजं ते तावन्मानेन संस्थिताः मांडूका, मंडूका देवलासितणनाधम सर्वे, भक्ति युदा सदा उत्तरा मानवै, सदा, सूजनी विशेषण योगदा संभव मांडूका, पूर्व फ्गुनिया पूजनीय नरै सदा व्याधिदोषहरास्ते तु भवन्त्यत्र न संशयः असिताध्यायिमे सर्वे स्वस्वनामाङ्कितं परं पूजयन्ति गणेशं संस्थाप्य तीर्थसमन्विताः तेषां पुरो महात्मानो मुनयस्तत्र संस्थिताः मुख्यांस्ते शु प्रवक्ष्यामि शृणुध्वं योगि सत्तमान् धौम्यश्च वाल्मीकि वाचक्नवी मङ्गणकोमुनिः कहोडश्च सुमन्धुर्वै वैशम्भायन एव च जाबालिपर्वतपैलष्यशृङ्गप्रदाभवान् लोमशश्च विभाण्डोन्यो बल्लवाद्यामहर्षयः स्वस्वतीर्थयुधास्ते संस्थाप्य विघ्नेश्वरान् सदा पूजयन्ति महाभागाः स्वस्वनामा समन्वितान् उत्तराषाढनक्षत्रे पूजनीया नरैः सदा सर्वपापहरास्ते वै भवन्ते योगिसत्तमाः तत्पुरो गुह्य काश्चैव पवनात्मजः यक्षारक्षो गणः भजन्ते गणनायकम् स्थाप्य ढुंडि स्वीतीस्तुआ ध्यानपरायण उत्तरा भाद्रनक्षत्रे पूजनी शुभ प्रद मुक्शन भागे दुसर प्रणवसिद प्रणवाकृति तनाने मूर्धन ध्वनिर्भव त्रोकारगणेश सरस्वत्या समन्वितः चतुर्भ्यां पूजनीयोत्सौ सर्वसिद्धिप्रदायकः तत्पुरो वैरवस्यैव दूतानग्नस्य सर्वदः रक्षार्थं संस्थितादेव महाबलसमन्विताः अन्ये नानाविधास्तत्र स्थितास्तेषां महात्मनां नामादिकं बहुत्वात् कथयितुं नैवशक्यदे। शक्यते इदमुत्तरकं प्रोक्तं मयूरस्य चरित्रकं सङ्क्षेपेण महादेव सर्वसिद्धिप्रदायकं यात्रादिसंयुधं यस्तु शृणोदि क्षेत्रवासिनां मुख्यानां चरितं पुण्यं स सर्वं सुखम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे षष्ठे खण्डे विकटचरिते क्षेत्रवासी चरितवर्णनं नामैकोनविंशतितमोऽध्यायः ओ